अशीतितमोऽध्यायः वैशंपायन उवाच तमागतमथो राजा विदुरन्दीर्घदर्शिनम् साशङ्क इव प्रच्छ धृतराष्ट्रम् विकासुतः धतराष्ट्र उवाच कथम् गच्छति कौन्तेयो धर्मपुत्रो युधिष्ठिरः भीमसेनः सव्यसाची माद्रीपुत्रौ च पाण्डवौ धौम्यश्चैव कथम् क्षत्तर्द्रौपदी च यशस्विनी श्रोतुमिच्छाम्यहम् सर्वम् तेषाम् विदुर उवाच वस्त्रेण संवृत्यमुखं मुखम् कुन्ती पुत्रो युधिष्ठिरः बाहूविशालौ सम्पश्यन् भीमो गच्छति पाण्डवः सिकतावपन्सव्यसाची माद्रीपुत्रः सह देवो मुखमालिप्य गच्छति पांसूपलिप्तसर्वाङ्गो न कुलश्चित्तविह्वलः दर्शनीयतमो लोके राजानमनुगच्छति कृष्णातुकेशैःप्रच्छाद्य मुखमायतलोचना दर्शनीया प्ररुदती राजानमनुगच्छति धौम्यो रौद्राणि सामानि याम्यानि च विशाम्पते गायन् गच्छति मार्गेषु कुशानादाय पाणिना धृतराष्ट्र उवाच विविधानीहरूपाणि कृत्वा गच्छन्ति पाण्डवाः तन्ममाचक्ष्व विदुर कस्मादेवम् व्रजन्तिते विदुर उवाच निकृतृते राज्य धनषु न धर्माचलते बुद्धिर्धमराज से